श्रीमद्भागवत्महापुराणं दशं स्कन्ध अथाष्टमोऽध्यायः नामकरणसंस्कार और्बाल्लीला शेषुकुवाच गर्गपुरोहितो राजन् यदूनां सुमहातपाः व्रजं जगामनन्दस्य वसुदेव प्रचोदितः तं दृष्ट्वा परं प्रेतप्रत्युत्थाय कृताञ्जलिः आनर्चाधोक्षजधियां प्रणिपातपुरःसरं सोपविष्टं कृतातिथ्यं गिरासूनरीत्या मुनिं नन्दयत्वाद्ब्रविद्ब्रह्मन् पुण्यस्य कर्वाम महद्विचलनं नृणां गृह्णां दीनचेतसां नेशेशाय भगवन् कल्पते ज्योतिषामयनं साक्षायद्यज्ञानमतिन्द्रियं प्रणीतं भवता येन पुमानवेदपरावरं त्वं हि ब्रह्मविदां श्रेष्ठसंस्कारान् कर्तुमर्हसि बालयोरनियोनृणां जन्मना ब्राह्मणो गुरुः गर्गुवाच यदूनामहमाचार्यख्यातस्य भुवि सर्वतः श्रुतं संस्कृतं ते मन्यते देवकीसुतं कंसपापमतिसख्यं तव चानक्यदुन्दुभेः देवक्या अष्टमो गर्भो न स्त्रीभवितुमर्हति इति सञ्चिन्तयन् छुत्वा देवक्या दारिका वचः अपि हन्ता गता शङ्कस्तर्हि तन्नो नयो भवेत् नारदुवाच अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् श्रीशोकुवाच एवं सम्प्रार्थितो विप्र चकार नामकरणं गूढोरहसि बालयोः गर्गोवाच अयं हिरोहिणी पुत्रो रमयन्सृहृदो गुणैः आक्षासते राम इति बलाधिक्याद्बलं यदुः यदो नाम पृथग्भावात्सङ्कर्षणं शंसि त्वम् आसन्वर्णाश्रेयोषस्य गृह्णतो नुयुगं तनुः शुक्लो रक्तस्तथापीत इदानीं कृष्णगुङ्तां गतः प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः वासुदेव इति सीमान् अभिज्ञाः सम्प्रत्यक्षते बहूनि सन्ति नामानि च सुतस्यते गुणकर्माणि रूपाणि तान्यहं वेद नो जनाः एष वर्षे आधास्यन् गोपगोकुलनन्दनः अनेन सर्वदुर्गाणि यमञ्जसरिष्यथ पुराणेन व्रजपते साधुवो दशपीडिताः अराजके रक्षमाणा सम्मं समेधिताः य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः नारियोभिभवन्त्येतान् विष्णुपक्षानि वासुराः तस्मान्नन्दात्मजोयं ते नारायणसमोगुणैः त्रियाकृत्यानुभावेन गोपाय स्वसमाहितः इत्यात्मानं समादिस्य गर्गे च स्वगृहं गते नन्दप्रमुदितो मेन आत्मानं पूर्णमाशिषाम् कालेन व्रजताल्पेन गोकुले रामकेशवौ जानुभ्यां सहपाणिभ्यां वृङ्गमाणौ विजक्षतो तामग्नियुग्मनुकृष्य सरिसुपन्तौ घोषप्रघोषरुचिरं व्रजकरसमेषु तन्नादहिष्टमनसा वसुनि श्रं शैत्यलोकं मुग्धप्रम्भीतवधुवेपेयतुरन्ति मातृ तन्मातरौ निजस्तुतौ घृण्या सुवन्त्यौ पङ्काङ्गरागरुचिरा उपगुह्य दोर्भ्यां दत्त्वा सनं प्रपृतोष्ममुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतु प्रमोदम् यर्हङ्गनादर्शनीयकुमारलीलां वन्तर्व्रजे तदबला प्रगृहीतपुक्षैः दर्शैरितस्तन्मुभावनुकृष्यमाणौ प्रेक्षन्त उद्यतगृहां जहृसो हसन्त्यः सिङ्ग्यां श्री श्रीजलद्बीजकण्टकेभ्य केडापरावतिचलौ शसितौ निषेद्धुं गुह्याणि कर्तुमपि यत्र न तज्जनन्यौ शोकात् आपातुरलं मनसो नमस्थाम कालेनाजल्पेन राजर्षे रामकृष्णश्च गोकुले अकृष्टजानभि बद्धिर्विचक्रमथुरञ्जसाम् तदस्तु भगवान् कृष्णो वयस्यैर्व्रजपालकै सह रामो व्रजस्त्रीणां चिक्रीडे जनयन्मुदम् कृष्णस्य गोप्यो रुचिरं वीक्षको मारचापरं षण्मत्या होचु समागताः